ओ दिन का पंथ पंथ भियो की गघति अस्मि हश्रस्य की आत्मया अमरते वशि तुम मजुरम tanala <speaking in> tanapi tanamanghiyo bhagavata siktashiri <speaking in> tananda tanapi shree <language> om amriteshwari namaha namaha om amriteshwari namaha namaha om amriteshwari namaha आं त्वां गणपतिं हवामहे कविं कवीनामुपमश्रवस्तमम् श्रेष्ठराचं ब्रह्मणां ब्रह्मणस्तृण्वन्वतिरिशीरसादनम् ॐ श्रीमहागणपते नमः निवती लेटस् प्राक्टिस् दिस् गु सूक्तं ट्वुगेदर् देन् विक्टिस् इण्डिविजुलि विल्मोस्ट् फिनिस्ट् दिस् ओन्ल टू मोर्सेट् फ़ोर् दिङ्ग् दूलि वेरि सिम्पल् वास् ओके सो विल् स्टार्ट् फ्रोम् ओकेन् टु त्रि ओमा त्यादते आयायङ्गौ कृष्णीकीरसणम् मातरम् पुनः पितरम् च प्रयः कुवः विराजति पदङ्गाय शिक्षिये प्रत्युभिः प्राय प्राणादपानत्यन्तश्चरति रोचना व्यख्यन्महिक्षु वः रोवपमन्युनाय भवत्याकल् अग्ने पक्तवीपयामसि मन्युपरोदृति मनुदत्तसे देव्याय विश्वे सद्देवासवश्चे देवि देव वसुन्दरा देधा देवी वासवी ब्रह्मवर्चस पृतॄणाक्षोत्रं चक्षर्मणः देवि ङ्गदर्तिणे देही प्रसेव तदने सत्यायने देव द्रवति सावित्री वै मह्यं दिवीधरणे महो यथा शृङ्गे शृङ्गे यज्ञं यज्ञभीषणी इन्द्रपत्मीयापि निरसरीदिमती जलशयनी श्रियं राजा सत्सनन्दोपरिणी परिधत् परिधत् शमशर् टैिनिङ्ग् ओके रेडि वन् टु त्री ॐ ॐमेर्भो दैवत्वा उपस्मृते अग्निमन्नादमन्नायस्य यमायङ्गौ कृष्णीभ्रमे गतमन् मातरम् पुनः श्रीतरम् च प्रयम् सुवः सर्वम् शब्दामपि राजते वाक्धङ्गाय शिश्रीप्रत्यस्वहद्युभिः त्यश्चरतिरोचना व्यक्न् महिष सुवः क्रुद्धपमन्युनायदवत्याकल्पमग्ने तत्त पुनो दीपयामसि स्ते मन्यपरोपस्य पृथिवी मनु आमादित्यायुस्ते तद्देवा प्रसदश्च समाबरन् मे देदिनीते देवसुन्दरास्याद्वसुधा देवी वासवे ्रह्मवक्षो चक्षुर्मनः देवीर्दिनी देवीवरी सदनेषायने समृद्रवती सावित्री हनो देवी मह्यङ्गी रणि महो व्यति वा शृङ्गे शृङ्गे यज्ञापि सुरसरितिः वायु वायुमपि जलशयनी श्रीम राजा सत्कुण्डोपरिमेदिनी ॐ भूमिर्भूमौर्वं महित्वा उपस्थेते देव्यदितेऽग्निमन्नादमन्नाध्यायादधे आयङ्गौः पृष्णिरक्रमीदसनन्मातरम् पुनः पितरम् च प्रयन्सु अः त्रिगुंशद्धामविराजति वाक्पतङ्गाय शिश्रिये प्रत्य वहध्युभिः अस्य प्राणादपानत्यन्तश्चरतिरोचना व्यक्षन्महिष सुवः यत्त्वा आक्रुद्धः परोवपमन्युना यदवर्त्या सुकल्पमग्ने तत्तव यत्ते मन्युपरो तस्य पृथिवीमनुदध्वसे आदित्या विश्वे तद्देवा वसवश्च समाभरन् वसुन्धरा स्याद्वसा देवी वासवी ब्रह्मवर्चसः श्रोत्रं चक्षुर्मनः देवी किरण्यगर्भिणी देवी प्रसूवरि तदति सत्यायनी सेव समुद्रवती सावित्री हनो देवि मह्यङ्गे ई महीकरणी महोव्यक्लिष्टा शृङ्गे शृङ्गे यज्ञे यज्ञे विभीषिणी ई धाराजा इट्स् दीर्घस्वर लैक् सत्यन्धोदिनी okay so like that e okay. can be extended things like that at the end but uh, very good very well done there like, were like very very minor things but uh, you are done next level well. very good act okay. Okay. okay who wants to go next i will try okay go ahead om domir bomnadyaurvarinam antariksham mahitva उपस्ते देव्यदितेग्निमन्नादमन्नाद्यायादते आयङ्गौः पृश्निरस्क्रक्रमी रक्र दसनन्मातरम् पुनः पितरम् च प्रयन्सु वः त्रिगुंशब्दामविराजतिपाक् पदङ्गायशिश्रिये प्रत्यस्य वहद्युभिः अस्य प्राणादपाणत्यन्तश्चरतिरोचना व्यत्यन्महिष सुवः आ क्रुद्धः परोवपमन्युना यदवत्या सुकल्पमग्ने तत्तव पुनस्त्वोदीपयामसि यत्ते मन्युपरोक्तस्य पृथिवी मनु तद्वसे आदि त्याय विश्वे तद्देवादि आदित्या विश्वे तद्देवासवश्चास्ट् गुड् दिस् गुड् मेदिनी देवी वसुन्दरा स्याद् श्या, वसुधा देवी वासवी ब्रह्मवर्क्षसः पितृणाक्षोत्रं चक्षुर्मणः देवी हिरण्यगर्भिणी देवी प्रसूवरी सदने सत्यायने सीद समु ्रवती सावित्री हनो देवी मह्यङ्गी ई मयी धरणि महोव्यतिष्ठा शृङ्गे शृङ्गे यज्ञे यज्ञे विभीषिणी ईन्द्रपत्नी व्यापिनी सुरसरिदिह वायुमती जलशयनी श्रियं दाराजा सत्यन्तोपरिमेदिनी श्वोयुड् ॐ okay, भूमिर्भूम्नाद्यौर्वरिणान्तरिक्षं महित्वा उपस्थे ते देव्यदितेमन्नादमन्नाद्याय दधे मात्मन्नाद्याया दधे मात, मन्नाद्यायाधे मन् मन्नाद्याया दधे करेक्ट् मन्ना आयङ्गः प्रश्निरक्रमेदशनन्मातरम् पुनः पितरं च प्रयन्सु वः त्रिगुंशत्थामविराजति वाक्पदङ्गायशिश्रिये प्राणादपान अस्य प्राश्चरति अस्य प्राणा अस्य प्राणादपानत्यन्तश्चरतिरोचना व्यख्यन्महिष सु वः यत्त्वा आकृतः परोवपममन्युना यतवर्त्या परोवपमन् परोवपमन्युना परोवपमन्युना त्वापमन्युना यदवर्त्यापमन् परोपमन् पमन् परोवपमन्युना परोवपमन्युना त्वा क्रुद्धः परो अपमन्युनायतवर्त्या सुकल्पमग्ने तत्तव पुनस्तोक्दीपयामसि यत्ते मन्युपरोक्तस्य पृथिवी मन् मनुध्वसे आदित्या विश्वे तद्देवावसवश्च समाफरन् मेतिनी देवी वसुन्धरा स्याद्वासुदा <coughs> देवी वासवी ब्रह्मवर्चसपतृणा श्रोत्रं चक्षुर्मनः देवी हिरण्यगर्भिणी देवि रसूवरी सदने सत्यायने सीद समुद्रवती सावि ो देवी मह्यङ्गी महीतरणि महो महो व्यधिष्ठा शृङ्गे शृङ्गे यज्ञे यज्ञे विभीषणीः इन्द्रपत्नी व्यापिनी सुरसरिदिह वायुमतिजलशयनि श्रियन्था राजा सत् यन्थो परिमेतिनी शोपरिथत् परिगाय शोपरिदत्तम परिगाय शोपरिथत्तम परिगाय वेरी गुड टुमारो वी नेक्स्ट आय चन्दो ओके हुमे लोम दत्यावरिनां दरिच्छं महित्वा उपस्थे देदे देव्यदिते निमन्नाद मन्याद्यादथे आयम गौ प्रश्निरक्खमे दसनं मादरं पुनः अनसेकल अनिस आयम गौ प्रश्निरक्खमे द विसर्ग फॉलोड बाय पकार यापते से एफ ओके लोम से आयम गौ जो आयम गौ देयर इज विसर्ग आफ्टर दैट राइट सो यङ्ग् प्रश्निरक्रमी आयङ्ग्रमे दशनन् मादरं पुनः तयङ्ग् प्रश्नरक्रमीस्कारम् प्रयन्सु वः त्रिकं श्रुधाम विराजदिवदङ्गायश्रिये तत्यस्य वहत्युभिः मस्य प्राणा प्राणादपानत्यन्दश्चरतिरोचना यक्ष्यन्मू वपम ुना यदवर्त्यान् क्रुद्ध no good up for the first like a for F for you are for or a for for left sound right okay. or like that and this or cough so yet well are growth up but all of a woman you know I get over the are group of it okay it well good good रुद्धः तत्र प्रसर्गा बिकमसे एफ साउंड यू हैव टू से बिकॉज़ इट इज गोइंग टू बी जॉइंड विथ पकार आफ्टर दैट पकार इज अ टी साउंड देयर दकार आईज गोइंग टू एदुपियन दैट टी सो द थिंग इज दैट ट्रफ हस टू मूव फ्रॉम द हैंड द टी टू द फ्रंट सो द थिंग इज द कनेक्टिंग वर्ड द फील हैज़ टू बी एफ साउंड सम क्रोध दर्वोवववमन्युना गद प्रसर्गा बिकमसे एफ ुनाय भवत्या <laughs> <then, laughs> सुकल्पमग्ने तत्तवक् पुनस्तो दीपयामसि यत्ते मन्युपरोत्पस्य पृथिवीमनुतत्वसे आदित्या विश्वेतदेवावसवश्च समाभरन् मेदिनी देवि वसुन्धरास्यादव सुरादेवी वासवी ब्रह्मवच्च श्रोत्रं चक्षुर्मनः देवी हिरण्यगर्भिणी देवी प्रसूवरी सदने सत्यायने सीता समुद्रवती सावित्री हनो देवी मह्यङ्गी महीधरणि महो व्यतिष्टा ङ्गे शृङ्गे यज्ञे यज्ञे विभीषणिः शृङ्गे शृङ्गे विभीषणिः विभीषणिङ्गे न महीधरणि महो व्यतिष्ठा शृङ्गे शृङ्गे औङ्गे सङ्गे शृङ्गे शृङ्गे यज्ञे यज्ञे विभीषणी शृङ्गे शृङ्गे इस् ङ्गे सङ्गे शृङ्गे यज्ञे यज्ञे विभीषणिः इन्द्रपत्नी व्याधिनी सुरसरीदिहा वायुमती जलचयने श्रियं धाराजसत्यन्तोदिनी चोपरिदत्तं परिगाय yeah so that only thing is that visarga followed by pakara it always gets cancelled okay that's what you okay. have to look at and visarga usually changes pronunciation depending on what comes after that sometimes it doesn't even won't be there if you don't have to pronounce it so followed by a sakara okay. it become a double sakara followed by sakara it becomes a double sakara the okay. visarga pronunciation is not uh, uh, written here but when you change it it will be thumb okay? okay yeah thanks who is next अल्गो नक्सरि ॐ भूमिर्भूम्ना दौर्वरिणान्तरिक्षं महित्वा उपस्ते देव्यदिना मन्या या देनि नाद्यायाददे आयङ्ग्रमि रसनन्मादरं मादरं पितरं च प्रयं सुः तृक्शब्दा तृक्शब्दामविराजदि त्रिक्षद्धा, वाक्पदङ्गायसि श्रिये प्रत्यय प्रत्यस्य वहद् वहद्युभिः अस्य प्राणादपानन्त्यन्तश्चरितिरोचना त्यन्तश्चरति रोचना व्यत्यन् महिषसु वः य परोवपमन्युना यदर। यदवर्त्या मन्युना यदवर्त्या सुकल्पमग्ने तत्तव पुनस्त्योदीपयामसि यत्ते मन्युपरोक्तस्य पृथिवीमन् मनुदध्वसे आदित्या विश्वे तद्देवा वसवस्य समाभरन् मेधिनी देवी वसुन्धरा ्याध्वसुधादेवी वासवी ब्रह्मवर्चस पितृणादस्तोत्रं चक्षुर्मनः देवी हिरण्यगर्भिणी देवी प्रसूवरी सदने सत्यायने सीता समुद्रवदी सावित्री हनो देवी ह्यङ्गी महीधरणी धिष्ठा शृङ्गे शृङ्गे विभीषिणी इन्द्रपत्नी व्यापिनी सुरसरिदिह आयुमदी जलशयिनि श्रियन्दा राजा सत्यन्दो निधिनि परिगाया महित्वा उभस्ते देव्यदिवन्नादमन्नाद्याया दधे आयं गः पृश्ने क्रमि दसनान्मातरं पुनः पितरं च प्रयन्सुभः त्रिभुं श्रद्धाम विराजति वाक्पदङ्काय चित्रिये प्रत्यस्य वः द्युभिः अस्य प्राणातवानत्यन्तरी रोचना यक्ष्यन् महिषशुभः यद्वा क्रुद्धः परोभवमन्युना यदवर्त्याकल्प अग्ने तत्तव पुनस्तो पुनस्त्व दीपयामसि यत्ते मन्युवरुपस्य पृथिवी मनुदध्वसे आदित्या विश्वे तद्देवा बसवस्तनी देवी वसुन्धरा दा देवी वासवी ब्रह्मभर्तसपितृणा श्रोत्रं चक्तुर्मनः देवी हिरण्यगर्भिणी देवी प्रसूवरी सदने सत्यायने सीदा समुद्रवदी सावित्री हनो देवी मही महीधरणि महोव्यधिष्ठा ृङ्गे शृङ्गे यज्ञे यज्ञे विभीषिणी इन्द्रपत्नी व्यापिनी सुरसरिदिहदिहम् वायुमदी जलशयिनी सुयन्धा सत्यन्तो परिमेदिनी सोपरिदत्त परिगाया ी डबल्नि डबल् इ ओके राजा सत्यन्तोपरिमेदिनीयानीदिनी ओके राजा सत्यन्तोपरिमेदिनी स्वोपरिदत्त परिगाया परिदत्तं परिगाया Paridattam Parigaya. Yeah, good. Okay, Dattam Angale. Yeah, there's a dot, isn't there? You have to say a dot. Okay, <laughs> thank you. Okay, Dattam Parigaya. Okay. Who is next? I'll try. Okay, go ahead. Om um, Bhoomir Bhoomna Dyorvarina Tariksham Mahitva उपस्थेते देव्यदितेऽग्निमन्नादमन्नाद्यायादधे आयङ्गश्निरक्रमीदसनन्मातरं पुनः पितरं च प्रयन्सुवः त्रिगुंशद्धाम विराजति पाक्पतङ्गाय शिश्रिये प्रत्यस्य वहद्युभिः प्राणादपानन्त्यं तश्चरतिरोचना व्यक्षन् महिष सुवः यत्त्वा आ क्रुद्धः परोवपमन्युना यदवर्त्या सुकल्पमग्ने तत्तव पुनस्तवोद्दीपयामसि पुनस्त्वो पुनस्त्वो पुनस्त्वोदीपयामसि यत्ते मन्युपरोक्तस्य पृथिवीमनुदध्वसे आदित्या विश्वे तद्देवा वसवश्च समाभरन् मेदिनी देवी वसुन्धरा स्याद् देवी वासवी ब्रह्मवर्चस्वपितृणागश्रो श्रोत्रं चक्षुर्मनः देवी हिरण्यगर्भिणी देवी प्रसुवरी सदने सत्यायने सीद समुद्रवती सावित्री अनो देवी मह्यङ्गी महीधरणि महो व्यधिष्ठा शृङ्गे शृङ्गे यज्ञे यज्ञे विभीषिणी ईन्द्रपत्नी व्यापिनी सुरसरिदिहायुमती जलशयनी श्रियं धाराजा सत्यन्धो परिमेदिनी श्वो परिधत्तं परिगाय Anybody else? Everybody is done? Did we miss anybody? No, right? Okay. Okay, there are two small parts left over this thing. Let's learn that as well. Let's see whether we can do the last one. Okay? Okay. I'll say once you guys repeat twice. These are very easy ones. You have probably heard it before. विष्णुपत्नीं देवी विष्णुपत्नीं महीं देवी माधवीं ष्णुपत्नी महीं देवीं माधवीं माधवप्रियाम् महाप्राण ओके माधव माधवी मास्ट् दर्ड् लक्ष्मी प्रियसखी लक्ष्मी ईं प्रियसखीं देवी लक्ष्मी ईं प्रियसखीं देवीमां यच्छुतवल्लभां नमां यच्चुत वल्लभां नमां यच्छुतवल्लभाम् okay that's okay come everybody yeah. okay. okay i'll try the whole sentence lakshmi e priyasakhi devi, Laxmi Laxmi. Priya devi, devi. Priya devi. namam achchuta vallabam lakshmi lakshmiim priyasakhiim deviim namam achchuta vallabam lakshmiim ल्टि सो अल् ट्रै दोल्ड् टु सेण्टेस् टुर् विष्णुपत्नी महीम् देवीम् माधवी माधवप्रियाम् लक्ष्मी प्रियसखीम् देवीम् नमाम्यच्युतवल्लभाम् विष्णुपत्नी महीम् देवी माधवी माधवाप्रियाम् लक्ष्मी ई प्रियसखीं देवीं नमां यच्युत वल्लभाम् विष्णुपत्नीं महीं देवीं माधवीं माधवप्रियाम् लक्ष्मी ईं प्रियसखीं देवीं नमां यच्युत वल्लभाम् okay right no problems correct yeah okay okay and this is the last two sentences uh, that's all because i don't think we normally don't chant anything after that in the mankar pushpam okay so even i think okay. in the other pl places only you would see up to the next two sentences okay. om dhanurdaraye vidmahe धनुर्धरायै विद्महे ॐ धनुर्धरायै विद्महे सर्वसिद्ध्यै च धीमहि सर्वसिद्ध्यै च धीमहि सर्वसिद्ध्यै च धीमहि धनुर्धरायै विद्महे सर्वसिद्ध्यै च धीमहि ॐ धनुर्धरायै विद्महे सर्वसिद्ध्यै च धीमहि ॐ धनुर्धरायै विद्महे सर्वसिद्ध्यै च धीमहि ओके Okay. No problem, right? Yeah. Yeah. Okay. We'll do the next one. Tannu Dara Prachodaya Ati Tannu Dara Prachodaya Ati Tannu Dara Prachodaya Ati That probably is easy, correct? Yeah, yeah. it comes so, in so okay. many yeah, exactly. So do the two sentences टुगेदर् ओम् धनुर्धरायै विद्महे सर्वसिद्ध्यै च धीमहि Prachodaya प्रचोदयात् धनुर्धरायै विद्महे सर्वसिद्ध्यै च धीमहि तन्नो धरा प्रचोदया आत् ॐ धनुर्धरायै विद्महे सर्वसिद्यै च धीमहि टुगे विष्णु पत्नी ष्णुपत्नी महीं देवी माधवीं माधवप्रियराय लक्ष्मी प्रियसती देवीं मानवच्युतवल्लभाम् ओ धनुर् धनुर्धरायै विद्महे सर्वसि च धीमहि न्नो धरा प्रचोदयात् विष्णुपतिष्णुपतिनी महीन् देवी माधवी माधवप्रियाम् लक्ष्मी लक्ष्मी मही प्रियसती देवीं मां यच्छुत पल्लभाम् ल् बट् मेनि सो यो शाल् वी ट्रै लर्निङ्ग् इ टेक्स्ट् पे ॐ गृणाहि घृतपती सवितार सविता सवितराधिपत्यै उन्मोटाल्सिके सवितराधिपत्यै सवितराधिपत्यै सवितराधिपत्यै पयस्वती पयस्पती पयस् पयस्वतिरन्तिराशाणो पयस्वतिरन्तिराणो no, no, okay, no, no. uh, uh, राशा नो नोट् नो ओके सर् लो नाट ना ओके मणि नाम शिवाय ना ओके पयस्वतीरन्तिरा पयस्वतीरन्तिरा पयस्वतिरन्तिरा घृतपती सविधिपत्यै पयस्वतीरन्तिरानो अस्तु कृतवती सवितराधिपत्यै पत्य राशानु अस्तु ओके इन् देट्लम् धिपत्यै पयस्वतीरन्तिराधिपत्यै पयस्वती Okay. Namaste vayahari, is it uh, Lakshmi uh, Suptam or what, what is the Neela, is Neela Suptam? Suptam? Neela Suptam. Is it... Um, uh, Ghandraj, go ahead. Do you have a question? Did you get dropped? Yes. you got dropped hello oh sorry i got disconnected it is it is say something I, I, yeah it is nilasuktam okay oh. the new one yeah but is it chitto uh, um, for lakshmi or what, what is the deity that sus uh, wife is nilasuktam isna bhakti isna bhakti no? means uh, lakshmi or <laughs> lakshmi yeah. okay the, uh, the thing is the um, There are two things uh, here. The Bhū-Suktam. Mm -hmm. Bhū-Devi is also supposed to be Vishnu-Patni. Vishnu, yeah, Vishnu yeah, yeah. has two-Patni. Lakshmi and uh, Bhū-Devi. So that mm -hmm. is what the previous one. Okay. Mm -hmm. the, this thing is uh, Neela-Suktam is for uh, also Vishnu-Patni. So uh, that's why uh, it just says it uh, um, uh, will uh, come again. So the mm -hmm. Vishnu is actually if uh, you look at it it's uh, in uh, or vedanta philosophy there are three um, things brahma vishnu and maheshwara right mm -hmm. Mm -hmm. so um vyapno iti vishnu so everything that is all over the place is the vishnu that's uh, so you, you can think of it as a um, space okay? so everything that is spread all everything is is uh, vishnu that's the vishnu principle and the shiva principle is is time so that's why it's called is called mahakal or kalaha okay so uh, these are the thing is all over there's no end or beginning to these things so when vishnu patni which means like you know somebody who supports him or something like that so essentially some of these things are not like a, you cannot think of it as a single person had his wife or something like that it's just that uh, they <laughs> go together for a creation or For manifestation and things like that. So some of these things are a little bit more deeper in meaning. So when you say Vishnapatni, you can just say, oh, he has only one or two wives or something like that. It's not like wife in that aspect. Okay. Okay. Shall we go ahead? प्ली प्लीज ओके ध्रुवातिशा ध्रुवातिशा ध्रुवातिश विष्णुपत्न्य घोरा विष्णु पश्न्याघोराष्णु पत्न्य घोरा ध्रुवादिशादिशां विष्णुपत्न्यघोरा अस्येषाणा अस्य शाना सर्वल नस्येषाना ओके स्माना अस्य शाना अस्य शाना सहसोया शहसोया। शहसोया। शहसोया। मनोता ध्रुवा दिशां विष्णुपत् ेषा सोरि ध्रुवादिशां विष्णुपत्न्यघोरा ध्रुवान्वादिशां विष्णुपत्न्यघोरा ध्रुवादिशां विष्णुपत्न्यघोरा Asheshana sahasoya manu ta'a. Asheshana sahasoya manu ta'a. Asheshana sahasoya manu Ashe ta'a. Both parts are okay saying together? ओके ध्रुवा दिशां विष्णुपत्न्यघोरास्येषाना सहस्रोया मनोता ध्रुवा दिशा विष्णुपत्न्यघोरास्येषाना सहस्रोया मनोता ओकेल् शाना औना पत्य गोरा और सोना शना शाना ओके panya ghora se sha yeah. okay any other question very big word not, it is not one big word but so go joined together okay okay this <coughs> accommodation बृहस्पतिपतिरि शोता मा शोता बृहस्प मातरि स्वर्मारि मातरिोदा वायुसन्धु वायुसन्धु वा वायुन्दु अभिनो गृह्णन्तु अभिनो गृह्णन्तु अभिनो गृह्णन्तु वाना वाता अभिनो गृणन्तु ओके द सेण्टेन् ओल् द वर्ड् आर् ओके ओके होल् सेण्टेन्स् टुगेदर् Maybe I'll do it two, uh, two parts, okay? First half half. and second half. We second मेबिल् डू अट् the first part. हाफ़् दि ड् सेकण्ड् हाफ़् नल् टु दार्ट् बृहस्पति लेप्ल् सेण्टेन्स् बृहस्पतिर्मातरिश्वोध वायुस्सन्धुवादा अभिनो गृणन्तु prastat te matarishvodayus sandukana va binur granantu prastat te vatashurodayus sandukana va tasah abhin granantu do okay whole sentence yeah, yeah. Mm -hmm. yes okay we do only one more sentence let's just finish it will take a few more minutes but let's try that and then begin practice next week okay so yeah okay vishtambho divo dharunaha vishtambho divo dharunaha dharuna dharunaha vishtambho divo dharunaha ष्टम्बो देवोदरुणः विष्टम्बो देवो दरुणः पृथिव्या अस्येषाना पृथिव्या अस्य जगतो जगतो जगतो विष्णुपत्नी वर्ड् ओके ओके फस्ट् हाफ़् दन् विकेण्ड् हाफ़् टु ओके विष्णम्भो दिवो अस्येषा न जगतो विष्णुपत्नी अस्ति ज्ञाना जगतो विष्णुपतिनी अस्ति जगतो कृष्णपत्नी ओके बोध् पाट् सर् ओके होल् सेण्टेन्स् विष्टम्भो दिवो दरुणः पृथिव्या ेषा जगतो विष्णुपत्नी विष्णम्बो धरुणः पृथिव्या अस्ति रायना जगतो विष्णुपत्नी विश्वम्बो दुपो धरुणः पृथिव्या अस्ति राज jagatoh vishnu patni okay yeah yeah okay so let's do once from uh, beginning till end together once then see how that goes then actually we can practice more okay okay okay i'm on pranahi okay are okay? you ready yeah okay. yeah 1 2 3 om om brahmah turie धृतवती पर्य ध्रुवानृषां वर्ष्णपत्मधोयामनोपा बृहद्वातिमानो आयुषाय विष्णु विष्णुरो दर्णा जगतो विष्णुपत्नी Can vale you do it one more time you have time right you okay. have we'll take one more okay. minute okay Let's do one okay. more time ready 1 2 3 om hram hramah grutavati tamih taripotadi patyaya sayati rannira jashano astu ृवानस्य घोरभो राशानासह बृहस्व न ऋश्वयुसायुवायुवाना मृतो ओम ओम् शां शा शां शान्ति नेक्स्ट् वीक् विल् प्रेक्टिस् दिस् प्रक्टिस् दि होल्मन् टैस्मओे इण्डिविजुलि any questions how do you what is neela the name of vishnubhatni neela actually means uh, the there's the also darkness or the dark color is also called neela okay so yeah. Oh, yeah okay yeah. so so the thing is here the it will be most probably the night part of uh, the uh, day okay there's the like the day has a both the day and the night part right okay so this is probably what i'm thinking here because uh, is also called as vishnupatni vishnupatni has uh, one side is uh, the uh, uh, um, all light and color and uh, um, everything thing and the other side is the dark uh, or the night side okay so okay day and night day and night so do, do we have the next part also there is four lines no that? that's not part of this na bimba megamrai uh yeah yeah yeah that's no, not part income. of the dilas upa yeah. oh, okay so maybe uh, if we practice this next week we may start with durga suktam because we learned it once but we can probably some people you know learned it earlier so we can start with durga suktam and then then go from there okay, okay. डु त्री लोकाः समस्ताः स्टोप् वदन् ॐ लोकाः लोकाः समस्ताः भवन्तु लोकाः काः श्रुतिमन्तु भवन्तु लोकाः काः श्रुतिमन्तु भवन्तु शान्ति ॐ श्रीगुरुप्रियो नमः नमः हरिः हरि